नमामी समीसाननिर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपं निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहं निराङ्कारमोङ्कारमूलं तुरीयं गिराज्ञानगोपीतमीशं गिरीशं करालं महाकालकालं कृपालम् गुणागार संसारपारं नतोऽहं तुषाराद्रिशङ्काशगौरं गम्भीरं मनोभूतकोटिप्रभा श्रीशरीरं सफुन्मौलिकल्लोलिनी चारुगङ्गालसत्बालबालेन्दुकण्ठे भुजङ्गा चलत्कुण्डलं रोसुनेत्रं विशालम् प्रसन्नाननं नीलकण्ठं दयालं बाधीशचर्माम्बरं मुण्डमालं प्रियं शङ्करं सर्वनाथं भजामि प्रचण्डं प्रकृष्टं प्रगल्भं परेशमखण्डं अजं भानुकोटिप्रकाशं त्रियः शूलनिर्मूलनं शूलपाणिम् भजेऽहं भवानीं पतिमगम्यं कलातीतकल्याणकल्पान्तकारी सदा सच्चिदानन्ददाता पुरारी चिदानन्दसन्दोहमोहापहारी प्रसिद्ध प्रसिद्धप्रभोमन्मतारी न यावत् उमानात् पादारविन्दम् भजतीह लोक परेवा नाम सुखम शांति सन्तापनाश प्रसिद्ध प्रभोसर्वूता दिवासम न जागम जपमे पूजा न तो हम सदा शर्वदूत जरा जन्म दुखोद प्यमानं प्रगोपाय सापां नमामि शम्भो नागेन्द्रहाराय त्रिलोचनाय भस्माङ्करागाय महेश्वराय नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय मन्दाकिनीसलिलचन्दनचरचिताय नन्दीश्वरं प्रंथनाथमहेश्वराय मन्दारपुष्पे बहुपुष्पसुपूजिताय तस्मै मकाराय नमः शिवाय शिवाय गोरी च वृन्द सूर्याय दक्षाध्वरिनाशकाय श्रीनीलकण्ठाय वृषध्वजाय तस्मै शिकाराय नमः शिवाय वसिष्ठकुम्भोद्भवगोत्तमार्ये मुनीन्द्रदेवार्चितशेखराय चन्द्रार्कवेस्वारललोचनाय तस्म करकाराय नम शिवाय यक्षे स्वूपयटाधराय पिनाकस्ताय सनातनाय दिव्याय देवाय दिगंबराय तस्मा नम शिवाय पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ शिवलोकं वाप्नोति शिवेन सह मोदते जटाकटाहसम्भ्रमब्रमन्निलिम्पनिर्जरीविलोलवीचिवल्लरी विराजमानमूर्दनी तगत्तगत्तगद्गलल्ललाटपट्टपावके तगत पावके व्रति प्रतिक्षणं मम जटाटविकलज्वलप्रवाहकावितस्थले गलेव लम्ब्य लम्बिताम्बुजङ्गतुङ्गमालिकं डमड्डमड्डमड्डमत्रिनाथमड्डमर्वयं चकारचण्डताण्डवं त नोतु नः शिवः शिवं <द्णाग> दरादरेन्द्रनन्दिनीविलासबन्धुबन्धुरसृहृदिगन्तसन्तति बंदु प्रमोदमानमानशीकृपाकटाक्षधोरणि निरुद्ध दुर्धरापदि क्वचि चिदम्बरे मनो विनोदमेतुमस्तुनि जटाभुजं गतिङ्गल सुरत्थणामणिप्रभाकदम्ब कुङ्कुमद्रव प्रलिप्तदिक्वधुमुखे मदान्तसिन्दुरस्फुरत्कगुप्तरीयमेदुरे मनो विनोदमद्भुतं विभर्तुभूतभर्तरि ललाटचत्वरज्ज्वलध्वनञ्जयस्फुलिङ्गवानिपीतपञ्चसायिकं न मन्निलिम्पनायकं सुतामयूकलेखया विराजमानशेखरं कमहाकपालिसम्पदेशिरोजटालमस्तुनः सहस्रलोचने प्रभुत्वशेषलेखशेखरे प्रसुन्नदूलधोरणी विधूषरङ्गपीठभूभुजङ्गराजमालया निबद्धजाटजूतकः श्रियेचिराय जायतां चकोरबन्धुशेखरः करालवाल्यपट्टिका तत्तगज्जगज्ज्वलधनञ्जयाहुतिकृतप्रचण्डपञ्चसायकी धराधरेन्द्रनन्दिनी कुचाग्रचित्रपत्रकप्रकल्पनेकशिल्पिनी त्रिलोचनैरतिर्ममं नवीनमेघमण्डली निरुद्धदुधर स्फुरत्तकोतिनीशितिनीतमः प्रबन्धबन्धुकन्ध्रः निडिम्प निरुधरीधरश्चनोतुकृत्यसिन्दुरः दर कलानिधानवन्धुरः श्रूयजुरन्धरः प्रफुलनीलपङ्कजप्रपञ्चकालिमप्रभालम्बकण्टकन्दलीरुचिप्रबन्धकन्दर स्मरच्छिदं पुरच्छिदं भविदं मखच्छिदं गजच्चिदान्तकञ्चिदं तमन्तकञ्चिदं भजे अखर्वशर्ममङ्गलाकलाकदम्ब मञ्जरीरसिप्रवाहमाधुरी विजम्बणामदूरतं स्नान्तकं पुरान्तकं भवान्तकं मकान्तकं गजान्तकान्तकान्तकं तमन्तकान्तकं भजे जयत्पर ब्रवीक्रमब्रमस्फुरभुजङ्गस्वसद्विनिर्गमस्क्रमस्फुरत्करालबालहव्यवाटिमित्युमिद्धिमिदङ्गतुङ्गमङ्गलं त्वनिक्रमप्रवर्तितप्रचण्डताण्डवं शिवः दुष्चित्प्रतल्पयोर्भुजङ्गमुक्तिकं जशो गैष्ठलोष्टयो श्रुरतिपक्षपक्षयोस्मनारविन्द चक्षुषो प्रधामहि महीन्द्रियोस्मनप्रवृत्तिकदा सदाशिवं भजाम्यहम् कदानिलिम्पनिर्जरीनिकुञ्जकोटरेव भाल बाल्यलग्नकः शिवेति मन्त्रमुच्चरन् सदा सुखी पवाम्यहं विम्फनाथनागरी कदम्बमौलिमल्लिकानि गुम्पनिर्जरीरक्षन्मदूष्णिकामनोहर तनोतु नो मनोमिदं विनोदिनीमहर्निशं परः श्रृह परं पदं ददङ्क जत्पि सायः प्रचण्डवाटवानलप्रभाशुभप्रचारिणि महाष्टसिद्धिकामिनी जनावहूतजल्पनाविमुक्तवामलोचनाविवाहकालिकध्वनिः शिवेति मन्त्रभूषणा जगज्जजायजायताम् पूजावसानसमये तस्वक्रगीतं यः शम्भुपूजनमिदं पठति प्रदोषे तस्य स्थिरां गजेन्द्रतुरङ्गयुक्तां लक्ष्मीं स देवसुमुखीं प्रददाति स्म